मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं तर्टि शिवादिपराजयो नाम त्रिंशोऽध्यायः श्रीगणेशाय नमः मुद्गल उवाच गणानां च पिशाचानां वचनं दारुणमहद श्रुत्वा शिवस्वयं तत्र युद्धार्थं दंशिदो भवत ब्रह्माविष्णुश्च कामश्च वसवो धनदो भवत चन्द्रसूर्यस्तथा वह्निः समीराद्याश्च दंशिताः कालाग्निरुद्रमुख्या ये भैरवो भूधनायकः कृत्वा युद्धक्षमं वेषं स्थिता शङ्करसन्निधौ अष्टभैरवमुख्याश्च वीरभद्रादयो भवन् नन्दीभृङ्गी पुष्पदन्तमहाकालरवास्थिताः महाकालीमुखास्तत्र देव्य शस्त्रधराययुः एवं नानाविधैः सैन्यैर्वृतः शम्भुर्महेश्वरः महातेजा आयौ युद्धलालसः यत्र दैत्यास्तितास्तत्र कार्तिकेयादिभिर्युदः शङ्करं सैन्यसंयुक्तं नानायुद्धविशारदं नानाश्वस्त्रधरं दृष्ट्वा दैत्ये शाश्चिक्षिपुशरान् तद्दृष्ट्वा कुपिता देवा शस्त्रास्त्रैस्तानताडयन् एवं परस्परं युद्धमभवद्दारुणं महद देवानां चैव दैत्यानामन्योन्यजयकाङ्क्षिणां शस्त्रास्त्रनिचयैर्बाणैरन्धकारः प्रवर्तितः सैन्यानां रजसाव्याप्तमाकाशं सर्वतो बभौ न प्राज्ञा यदतत्रैव स्वीयो वा पर एव च खण्डानां वीराणां रथिनां तथा ब्रंहितानां हेषितानां शब्दैस्तद्वधिरीकृतं देवान् दृष्ट्वा सुराजघ्नुर्दैत्यान् देवास्तथा परे असम्बन्धं महायुद्धं चक्रिरे सुरदानवाः शस्त्रैशस्त्राणि संवार्य तथास्त्रैरस्त्रसञ्चयं मल्लयुद्धं महावीराश्चक्रुस्तत्र मदान्विदाः संग्रामे तु मुले तत्र प्रवृत्ते घोररूपिणी मृदा मुमूर्श्रवकेचि छिन्नभिन्नास्तथा भवन् नानाजन्तुशरीरेभ्यः प्रवृत्ता रक्तसम्भवा नदी बभौ महाघोरा मांसकर्दमशालिनी रक्ता चास्तिभलापा च चा, केश्य शैवालशोभिता चाप सर्पा शिरःपद्मा कबन्धद्रुमवाहिनी भल्लकाष्ठा महाखोरा चामरैस्तृणकैर्युदा चत्रा वर्ता दुर्गमा च चर्मपट्टिशदर्दुरा वीरुभेदिकरा चैव प्रवर्धिनी तां दृष्ट्वा दैत्यराजास्ते क्रोधयुक्ताः समाययुः तैः समन्ताद् बलं भग्नं देवानां सर्वमञ्जसा बाणजालैर्दिशो व्याप्ता गन्तुं मार्गो न विद्यते पलायनपरा देवाः सर्वे दशदिशोगमन् तद्दृष्ट्वा देवराजास्तान् वारया मा सुरोजसा द्वन्द्वयुद्धं च तत्रासीत् परस्परविनाशनं देवानां मुख्य दैत्यानां वदामि ते न मुचिकामदेवेन युयुधे बलसंयुधः शम्बरो वायुना सार्थ शुम्भो देव्या महाबलः चन्द्रेणापि निशुम्भश्च गुहेनच विरोचनः कालभैरवदेवेन कालभैरवदानवः महिषासुरदयिते ह्यःकालाग्न्यापहरेण च प्रह्लादो विष्णुना सार्धम् विप्रचित्तिश्च भानुना अन्धकासुरनामा च वीरभद्रेण संयुतः अग्निना चैव दुर्बुद्धिर्युयुधे बलसंयुतः विषयप्रियये वासौ ब्रह्मणा युयुधे शम्भुना युयुधे तत्र सुन्दरप्रिय एव सः मत्सरासुरदैत्ये युद्धं द्रष्टुं स्थितो भवत एवं नानाद्वन्द्वयुद्धं शतशोधसहस्रशः सङ्ख्यातुं नैव शक्यं तदपारत्वात् प्रजापदे शास्त्रास्त्रैरसुराजघ्नुः सुरां स्तानपिते सुराः अग्निवाय्वादिकास्त्राणि तत्यध्युक्रोधसंयुताः च कम्पे च त्रिभुवनं दारुणे संयुगे तदा देवासुरप्रणाशश्च महांस्तत्र प्रवर्तितः शोणितौ कै प्रवृत्तास्तु नद्यः परमदारुणाः एवं सप्तदिवानक्रं गदं तेषां प्रयुध्यतां नासुरा न च देवास्ते विरामं चक्रुरञ्जसा ततश्च कुपिता देवा अत्यन्तं शङ्करादयः दैः त्यानामस्त्रसङ्घातानस्त्रैः संवार्यतान् पुनः ताडयामासुरव्यग्रा अस्त्रायर्नानाविधैः परं मूर्च्छितान् पतितांश्चक्रुर्मृदान् सञ्चूर्णितान् परान् तदो दशदिशोदैत्या वव्रजोर्भयसङ्कुलाः त्रिशूलादिमहाशास्त्रैस्तत्रापितु सुराबभुः सुन्दरप्रियकाव्याश्च मूर्छिता धरणीं गताः मृदप्राया कृतास्तैस्ते मुने तद्दृष्ट्वा क्रोधसंयुक्तो मत्सरस्वयमायययौ कृत्वानादं महाकोरं ब्रह्माण्डकम्बयन्निव धनुश्चक्रे सनादं वै तेन संशयिदासुराः बाणवृष्टिं ससर्जासौ दारूणां शत्रुनाशिनी तस्य बाणैः सुराः सर्वे मर्दिदा बलवत्तरं मृधा के जिक्षदा पदिदा मृधे पञ्चबाणैश्च सेनान्यं ताडयामास वक्षसि पदितः स धरा पृष्टे अग्निं च सप्तभिर्बाणाैर्नन्दिनं दशभिस्तथा ताडयामास दैत्येन्द्रः पतितं ऋणमूर्धनि दशभिर्वीरभद्रं सवितारं तथोष्टभिः चन्द्रं च सप्तभिर्बाणाः पादयामासैत्यपहा अनिलम् नवभिश्चैव कालाग्निम् रुद्रमष्टभिः दशभिश्च महाकालीं ताडयामास मत्सरः पञ्चभिः पञ्चभिश्चैव गणपान् भृङ्गिमुख्यकान् बाणैष पादयामास प्रलयाग्नि समुद्युतिः कुबेरं दशभिश्चैव पाडयामास वक्षसि ब्रह्माणं शतबाणैश्च पादयामास भूतले एवं तस्याद्भुतं कर्म दृष्ट्वा विष्णुः समाययौ बाणैः सहस्रसङ्ख्याकैर्ववर्षे कनवद्भृशम् दैत्यो बाणान्निवार्यैव तैः शरैः क्रोधसंयुतः शतेन ताडयामास पतितः स धरातले ततश्च शङ्करः क्रुद्धस्त्रिशूले नाहनद्भृशं त्रिशूलं निष्फलं तत्र पतितं धरणीतले पाशं दैत्यपदिः क्षिप्त्वा सहसा शङ्करं तदः गृहीत्वा पशुवत्कण्ठे आनयामास सन्निधौ धृत्वा शम्भुम् महाबाहुर्वदति स्म चतं मुने अतुलं किं त्वया मेद्य दत्तं वद सदाशिव कर्मणा त्वं समर्थश्च तथाहं कर्मणा किल जगदीश्वरतां प्राप्तो वृद्धाहङ्कारवानसि क्रमेण विष्णुमुख्याश्च देवान् धृत्वा महाबलः कैलासशिखरे रम्ये रेमे दैत्यसमन्वितः सर्वपूज्य तमो भूत्वा दैत्यः परमहर्षितः नानाकौतुकयुक्तश्च का भोगांश्च बुभुजे परान् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते शिवादिपराजयो नाम त्रिंशोऽध्यायः ओम्